योगै पवमानानामन्वारोहान् विद्वालय जत पवमानानारोहज न पवमाने भ्योवत्सिद्धते श्व्ये नोऽधिका यत्र छन्दानुत्वारभे स्वस्ति मासं पारयतु वर्णौभि छन्दानुत्वारभे स्वस्ति मासं पारय सखा विजगति छन्दानुत्वारभ स्वस्ति मासं पारयेत्याहैते वै पवमानानामन्वारोहास्तान्य एवं विद्वान् पवमानानारोहजिन पवमानेभ्यो वत्सि यो वै पव सन्ततिम्बे प्रमायुरेति न पुरायुष प्रमीयते कुसुमान् भवति प्रजां प्रजाम् ग्रहागृह्यन्ते अथवा अस्यैते गृहीतान् द्रोणकलशायः पोदभृता यद् गृहीत्वा पवमानम् विक्षन्द्यात्तम् विच्छिद्यमानमध्वर्यः प्राणो सन्तमादिसर्वमायुरे दिनपुरायुधः प्रवीयते पशुमान् भवति विन्दते प्रजा ीनिवापसवनान्यशतदीयकम् सवनमबलम् पञ्चनकंसु कुर्वन्धुपाकंसुकुं हत्वापाकंसुपात्रेयकं सुमवास्य तन्त्रेयसवृभिषु याये सुमज्यभिषुणो सर्वाण्येवदत्सवनान्यकं दे सुमन्ति शुक्रवन्ति समावद्दे समुद्रौ वित तावचोर्यौ पर्यावत्ते ते जठदेव दाः तयोः पश्यन्तो अतियञ्जन्यमपश्यन्तस्य तु मातिजन्तन्यम् वे ग्रथसे सरते वस्तके कः केशी विश्वा भुवनानि विद्वान् शिरोधारेत्यधिरम्बसानः शुक्रमादत्ते अनुभयिधार्यै देवा वै यद्यज्ञे कुर्वदसः कुर्वदते देवाये तुम् महायज्ञमपश्यन्तमदन्वदाग्निहोत्रम् नृणम कुर्वदस्माद्दिव्रत स्याद्विह्यग्निहोत्रम् जगपदि पौर्नमासञ् यज्ञमग्ने सोमीयम् ऋषम कुर्वदधा यज्ञमाग्नेयम् ऋषम कुर्वद वैश्वदेवम् प्रातः सवनम कुर्वद वरुणप्रघाधा माभ्यन्ति नुंसवनगुंसाकमेधा यज्ञम् तन्वस्तृतीयसवनमकुर्वतमे शामसुरायिज्ञमन्ववाचिकाकम् सन्तन्नान्ववायन्ते प्रबन्ध्वर्तव्या वाजिमे देवा अभूपन्नितध्वरस्याध्वरत्वन्ततो देवा अभवन्परासुरायगेवम् विद्वान् सोमे नगजते भवत्यात्मना परास्यभ्रातु्यो भवति परिभोरज्ञिम् परिभोरिन्द्रम् परिभोर्विश्वान् देवान् परिभोर्मागम् सह ब्रह्म वर्तते न सरः परः स्वशङ्केशम् जनाय सोर्वदेशगो राजन्नौषधे अध्योऽच्छिन्नस्य ते रजपदे सुवैर्यस्य रागस्पोषस्य च वितारस्याम तस्य प्राणाय मे वर्चोदा वर्चसे पवस्वापानाय ज्ञानाय भाचे रक्षक्रुतोभ्यां चक्षद्भ्यां मे वर्चोदो वर्चसे पवेधा विश्रोत्रायात्मनं जेभ्यायुषे वीर्याय विष्णोरिन्द्रस्य विश्वेशां देवाना जठरमसि वर्चोदा मे वर्चसे पवश्वकोऽशिको नामकस्मैपाकाय त्वायन्त्वा सो मे नामीपदम् सुप्रजा प्रजया भूयाशगुम् सुवीरो वीरैः स्ववर्तावत्य सु सा सुपोषः पोषेर्विश्वेभ्रमे रूपेभ्यो वर्तो तावत् शैवस्य मेरा स्वरस्य जय भक्षे यटस्य जिदमम् नृजे भूषण्डवेक्ष देशवै मात्रियः प्रजापदलर्यज्ञः प्रजापदिस्तमेव दत्त्वयदशलेन तत्तो भूत्याभिभवदे ब्रह्मवर्तस काम वेक्ष देशवै मात्रियः प्रजापदर्यज्ञः प्रजापदिस्तमेव दत्त्वयदशलेन तत्तो दत्तमायुषाभिरोध वै पात्रयः प्रजापतिर्यज्ञः प्रजापतिस्तमेव दर्पय दशगेन स्वत्य सर्वे घन स्वस्त्यः पर सर्वे पर सर्वे यज्ञिया यज्ञकृतस्थज मास्त्रिणि यज्ञमुपह्वयध्वपमा ज्यावाजवेजेतामुपास्तावः कलशस्वामो अग्निरुपदेवा उपयज्ञमुपमाहोत्रा उपहवेत्त्वयन्तान्नमोऽखस्य मायसोर्गादित्याहवनीयमुपतिष्ठते यज्ञो वेमखो यज्ञम् वावसददहं तस्मा वेव नमस्कृत्यसदः प्रसप्तात्मनो न रुद्राय मख्ने नमस्कृत्या माहेत्याघ्ने तस्मादेव नमस्कृत्य महिन्द्राय म खग्न इन्द्रियं मे वीर्यं मा निर्वधेरिहोत्रेयमायुष मे मयितामाशास्त्रेन्द्रियस्य वीर्यस्यानिर्घाता जया मे देवधा सदस्यार्तिमात्पयञ्जयस्ता विद्वान् प्रधत्पदि त्याहेता मे देवदासदस्यार्चिमार्पयन् विताय एवं विद्वान् सर्पदिनसदस्यार्चिमार्क्षदि समेते मागुं हतस्पादगुं सोऽ मा देवो दिव्यादगुं हतस्पादु वायुरन्दरक्षादज्ञः पृथिव्यायमः पितृभ्यः सरस्पदे मनुष्ये ेन मस्तदगेन हस्तगेन पुरोगाना चक्षुषे नो दिवे न पृथिव्या अहेदेशम् पादम् माद्या वा पृथिवीरद्याह्दो मे पृथक्पन्तम् पितरा न पृथक्पन्दिगे न मेश्वराहि सर्पदक्षिणार्थम् वरे क्षेदागन्धवितरः पितर्माणहम् युष्माभिर्भूयासम् सत्प्रदसोभयाजोजम् भूयास्तभ्यगेवनमस्कृत्य सदःपसर्पत्यात्मनो भक्षे हिमाविषेऽध्यायपाय सन्तनुपाय राय स्तोषाय वत्से सुप्रजा स्वाये हि वसा पुरावसा प्रियो मे हृदा यस्मिन् स्वा भावभ्यागम् सङ्ख्यातम् नृदक्ष सन्तादेव सोम सुचक्षा अवक्षेयम् मन्त्रा विभो व्यक्तेभि विश्वदर्शने शम्भोर्म यो स्वस्ति मा हरिवर्णप्रदरक्षत्र रक्षाय राजस्तोषाय सुबीरतायै मामालाजन्दिपेऽभि सो मामा मामे हाद्युत्विशापथे कृषणे सुष्णाय विषय वर्तते सुमद्गणस्य सोमदेवते जगदीचन्द्रसगेन्द्रपेदस्य णराशगुंसपेदस्य पितृवेदस्य मधुमदमुपहोतस्योपहोतो भक्षयामि आप्यायस्व समे तु ते विश्वरस्त्वमर्ष्णम् आवाजस्य सङ्गठे गात्रा हरिवो गणान् मेमाविदृशः शिवो मे सप्तरिषेऽनुपदिष्ठस्व मामे वाङ्नाभिमतिगाः अपामसाममृता भोमादस्मज्योनिरविदामदेवान् किमस्मान् कृणवदरादित्युमधोक्तिरमृदमर्त्यस्य जन्म आत्मनामिन्दाभोदज्ञस्तत्पुनराहारादवेधा वितर्षणिः पुनरग्श्चक्षुरथात्मनरेन्द्रा बृहस्पतिः पुनर्मे अश्विना युवम् च क्षुदाधत्तभक्ष्योः तिष्टयजुषस्ते सोमस्तुतस्तोमस्तुशस्तोक्षस्य हरिवद इन्द्रवेदस्य मधुमधपहोदस्योपहोत भक्षयामि आपो यास्थामापोरयत प्रजया च धनेन च एतत्ते तथजे धत्त्वा मन् वेतत्ते पितामहत्रपितामहे धत्वामन्वत्प्रिटलो यथा भागम् मन् तद्धन्नमा भस्पितरो रथा जनमो भस्पितरः सुष्मा जनमो भस्पितरो जीवायनमो भस्पितर स्वधायेतमा नमो भवितरो घोराय लोके स्थ युष्मागस्ते लोके देहाम् वसिष्ठा भूयास्तयेऽस्मिन् भवकेऽहम् तेहाम् वसिष्ठा भूयासम्प्रजापदेहत्वदेतान् निन्ना विश्वा जातानिपदिता बभूवस्तेजुगुमस्तन्नास्तु वयज्ञस्यामपदयोरयीनाम् देवकृदस्तेन सो वैज नमसि मनुष्यकृदस्तेन सो वैजनमसि पितृकृस्तेन सो वैजनमस्य भोतस्य गोमदेव निर्भस्तुतस्येष्टै दुषस्तुतस्त्वमस्य शस्तोक्षस्त्रियो भक्षो अश्वसेव पितृभक्भक्षम् कृतस्योपहोदस्यापहूत भक्षयामि मयीनाम् पयोजविश्वेधाम् देवानाम् तनोध्यासमद्यपृषदेनाम् ग्रहम् पृषतेनाम् ग्रहो जविष्टायमस्ते क्रमिश विष्णस्त्वानविदक्रमे भो दर्दधा हृदय न वर्धतान्तस्तमेष्टस्तवेदस्तर्द्रमिण मागम्याज्योदिर्भ्यैश्वानरम् पृष्टये दुग्धै यावते द्यावापृगेव हित्वा यावच्च सप्तसिन्धवोऽपि कामम् तमिन्द्रे ग्रहकम् सहोर्जागण्ठाम्यस्तजम् यत्कृष्ट गुणः पृषदाज्य मम मृजे क्षोद्रा अस्य प्रमायुगात् स यच्छ्वा मृजे चतुष्पादोस्य पषवः प्रमायुगात् स यः स्कन्दे प्रमायुगस्या कंद जकंद जंपुनगृाण मेरा पुनर्गृह्णाति हिरण्यमवधाय गृह्णात्यमृतं हिरण्यम् प्राणः पृषदाज्यमृतमेवास्य प्राणे दधाति शतमानं भवति सदाय पुरुषेन्द्रियणाय सेवेन्द्रिय स्वमवध्यापयति प्राजाभक्त्यो वा अश्व प्राजाभक्त्यः स्कन्दशिवैस्तव्यच्च पुनर्गृह्णादि यज्ञो वैष्ण यज्ञेनैव यज्ञकम् सन्तनादि ेव समित देव तत्प्रज सुप्रवेय बृहस्पदद्ब्रह्मायुष्मत्या ऋतो मागा तदनोपा साम्नः सत्याव आशुषः सन्तु सत्या आदोदय ऋतञ्ज सत्यञ्च वद स्तुत हेश भूया ब्रह्मयाज्ञापो बस आो प्रज्ञे सृधे सैमजर्क भो बस अस्पारक अच्छ वय ग्रिया पदीना यज्ञावालै यज्ञपदेन्दु हे यज्ञपदर्वा यज्ञन्दु हेशयस्तु दशस्त्रगौर्दहमविद्वालयजेनै यज्ञा हेतरेष्टापापी गान्भवजर्दहं विद्वालयज देश यज्ञं तु हेशयिष्टासी यान्भवजस्योर्जमत्यग्रस्य स्तुतस्य स्तुतङ्गम् न्याच्छस्त्रस्य शस्त्रमस्योर्जम् वत्यकम् शस्त्रम् तु हा मामामा शस्त्रस्य शस्त्रङ्गम् न्यादित्याहैषवे एवम् विद्वानि यजते दुहगेव यज्ञमिश्वावशीयान् भवति शयणायपत्मने स्वाहावक्षयमधिगोर्तागणमोऽभिष्टम् भागधम् मने स्वाहा जनमः स्वाहायमभिगोत्रार्जे होत्रा नाग स्वाहा वक्षयमभिगोर्त्रा गणमपयसे होत्रा नाग स्वाहावक्षयमभिगोर्ता गणमः प्रजापदयन स्वाहा वक्षयमभिगोत्ता जनमृतम्रमा सुयमभिगोर्ता गणमस्क्रम्पन्ता के रधा। नमो जानिर्भक्ताप्यमानामधव्यराधाभ्याकंसजतविश्वकर्माधोराषयो नमोऽस्त्वेद्भ्यः चक्षुषयेषा मनसश्च सन्ध्यो गृहस्पद एव एषद्यमन्नमः नस्मानमन्यान् समपान् मन्यमानः प्राणस्य विद्वान्स वरेण धीरगेणश्च कृपान्महि बद्धरे तम् विश्वकर्मन् प्रमु स्वस्तये ये भक्षयन्वसो या यानयोन् प्रतप्यन्तधृष्टया इयम् ते रामभया दृष्ट्ये सुन्नस्ताम् कृणो च विश्वकर्मा भ्यो अभिय अक्षण्यज्ञकृतो यज्ञतावास्तुवा कामा वो दक्षिणान्नवीणि ममा नस्त्वस्मादेन सह स्तापयिष्ट मे सदस्यास्ते सर्वे दक्षिण्यास्तेभ्यो यो दक्षिणाभ्यो निश्चेदयद्वयश्च कर्मणादिभ्यो विषदस्यामेव नेण तस्मै देवासोपुषे चिकित्सदयवासिरा दम्पती वा मम स्तुतः पुमान् पुत्रो जायते दे विन्द देवस्व सविश्वे अरपाके धते गृहः आशीर्दाया दम्पते वाममष्टुदामरष्टो रायस्य च तागुम् समोकसा या शि अच्छम् दुग्धम् कुम्भ्या सहेष्टेन या मन्नमतिम् जहादु सः शर्तिर्गेदेपेम यस्य जायापेवानः पुत्रा अदृशासोनस्या नरेन्द्रा या मोऽज्ञदसु प्रजास्त्वमिषन्द्रद्रमिनकम् समर्गताम् सञ्जयम् क्षेत्राणि सहसाहमिन्द्रगम् वा न अधरान् समर्थान् भूते माधा मुखमसि मुखम भूयासन्त्या वा परिगृह्णामि विश्वे त्वा देवानरा प्रत्यावयन्तु दिवि देवाम् जगम्हान्तरे क्षेमया तुम् च पृथिव्याम् पार्थिताम् धुराध्रुवेण हविषावसोमन्वयामसि यथा नः सर्वमित्यगत यक्ष्मकम् सुमना असल यथानगिंद्र विदिष् कले सर्वास्मसर यथान सर्वाईदस्माक यद्वै होतार्यमभ्याश्वयदेवज्रमेणमभिप्रवर्तयत्युच्छदा इत्याहप्रादस्वनम् प्रजगे यत्रेऽन्येतान्यक्षराणि तृपदा गायत्रै गायत्रम् प्राधस्य वनं गायत्र्यैव प्राधस्य वने वज्रमं च धत्तम् वाचेत्याहमाध्यन्ति नुंसवनम् प्रजगे येतान्यक्षगा नाध्यन्ति ने न वनम् दृष्ट्वा भैममाभ्यञ्जने सवने वज्रमन्तमुक्तं भाजे धायेत्याहे शवनम् क्षमाप्तपदाशक्पये वज्रेणैव तृतीयसवने वज्रवन्तर्धक्ते ब्रह्मपादिना वदन् संरागं पादयप्रादस्य साहित्याह प्रातस्तवनं प्रतिगे यत्रेण कृपजागायत्री गायत्रं प्रातस्य वनं प्रा ेव प्रतिगले छन्द्रागम् त्रिसम्पादयत्र सो तेजो वै गायत्री तेजः प्रादस्वनम् तेजगेव प्रादस्सवन आत्मन् धत्तम् वाचेत्याहमाभ्यन्तिनकुम् सवनम् प्रतिगेयत्वादेतान्यक्षराणि च दशष्टभम् माभ्यन्तिनकुम् सवनम् माभ्यन्ति नगेव ृष्टगन्ध्रियम् माभ्यन्तिरं सवनमिन्द्रियमेव माभ्यन्तिमे सवन आत्मन्धत्तृेर्य सप्तैदा सप्तपदाषत्वसभो जागतम् तृतीगवनं मृतीयसवन एव प्रतिगले चन्दागं सम्पादयत्य स पशभो वेजगजीपसभस्तृतीयसवनम् पशो ने पृतीयसवन आत्मन्धत्ते यद्वयो ध्वर्यमध्याह्यत आव्यमस्मिन् दधाति तद्य आवेदीर प्रत्यायते यथा प्रतिगृणीया यथा यथा समर्चते तादृगेव तद्युप्येत यथा ृगैव तत्प्रबाहुवा ऋत्विजा मुद्गेथा बुद्गेथगेवोद्गातृणाभृजः प्रणवमुक्थचकुंशिराम् प्रतिगार्योनाञ्च एवं विद्वान् प्रतिगृणाच्चदगेव भवत्याश्च प्रजाया यद इयं वैभोता यदागुं सत्यस्या नैत्यास्तं प्रतिघृणात्यमुष्यायैवं नैतिष्ठदेवक्यदावसो अमुमेव ते न यजमानो दुहे यदाशिनश्यगुंसदितस्मादिदप्रदानं देवा उपजीवन् यत् तिष्ठन् प्रतिघृणादितस्मा प्रदानम् मनुष्या उपजीवन् दिगत्रागासीनश्च कुंसय प्रत्यङ्गिष्ठन् प्रति कृणाति तस्मात् कार्यतोऽधीयते प्रतीजेय प्रजायन्ते यद्वे होदा धैर्यमभ्यात्मय देवद्रमेणमभिप्रवर्तय तिपदावत्त देवद्रमे वतन्निकरोति याम गृहेतो विभाक्षसदशि वाक्ष्पाभ्याम् त्वा कृत्वा द्यामस्तयज्ञस्य ध्रुवस्याध्यक्षा हस्तयेकस्य ध्रुवस्याध्यक्षाभ्याङ्गृह्णामि देवे ह्यस्त्वा विश्व देवेभ्यस्त्वा विश्वेभ्यस्त्वा देवेभ्यो विष्णपुर क्रमेश देशमस्तकं रक्ष स्पदन्ते धश्च क्षामाक्षण् युवसत्पुरो सर्वात् पा वाजम्मे पाहिम युवसर्भिलद्वसश्चक्षुष्पाश्चक्षर्मे पाहिम युवस संयद्वश्राक्रमाश्चाक्रम्मेपा हृधोरृश्वे षष्ठो रश्मीनाम् प्राणवाः प्राणम् मे पाहि धूरश्रेष्ठोरश्मीनामपानवाः पाणम् मे पाहि यो न इन्द्रवायो मित्रावरुणावश्मिनामभिजाभ्रादुर्यमुत्पिपेते तुभस्पति इदमहन् प्रमधरम् वादया वेदेहमुत्तमश्चेतयानिग्नेतवोचिभिः सुवीराभिस्तरधिवाजकर्मभिः यस्यत्पदम् सख्यमाविधा प्रभोत्रे भोर्व्यम्बोज्ञये भरता बृहज श्रीवाञ्जोदेकुण्डिबिभ्रजवेधे अग्नेत्रे देवादिनात्रे शस्था तिस्रस्ते जिह्वाजातपूर्वेः तिस्रौदेत नवो देवमातास्ताभिन्नः पाहि गिरो अप्रयुच्छन् सम्भाम् कर्मणा सविषाभिनोमीन्द्राविष्णो अपरस्तारे अस्या यज्ञन्द्रविनम् च धमरिष्टेर्णः पतिः पारयन्त उमादिज्ञसन्नपराजिये छेदपराजिज्ञेकधरश्चैना इन्द्रश्च विष्टो यदवस्पृधेथाम् त्रेधा सहस्रम् वितदैरयेथा एन्यायोगम् शितव जातवेजस्तिस्र आजानि रुषसस्ते अग्ने ताभिर्देवान् धातोऽन्या क्षेत्रः शत्रेकं रेखा दशा दक्षत्र विप्रयर्चनो विप्रोदोतः परिष्कृतः नभम् रामन्यके समे इन्द्राविष्णोदृगुम् हिताः शम्बरस्त्रवपुरो नवति शतम् वर्तिनः सहस्रम् च साकम् अथोः प्रत्यसरस्य उत मातापविषमन्भवेन जीत्वा जहति पुत्रदेवाः अथ भ्रवेद्वृत्तमिन्दो हश्यान् सखे प्रश्नोऽपितरम् विक्रमस्व ओ